श्रीहरये नमः अथ पञ्चदशोऽध्यायः राजोवाच भले पदत्रयं भूमेकस्मात् हरि अयाचत भूत्वेश्वरः कृपणवत् लप्तार्थो बि बभन्ततं एतत् कौतूहलं हिनः यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः श्रीशुक उवाच पराजितश्रियसुभिश्च हापितो हीन्द्रेण राजन् भृगुभिः महात्मार्तनि निवेदनेन तं ब्राह्मणा भृगवः प्रीयमाणा अजाजयन् विश्वजिता त्रिनागं जिगीषमाणं महाभिषेकेण महानुभावाः ततो रथः काञ्चन हयाश्च हर्यस्वतुरङ्घवर्णाः ध्वजश्च सिंहेन विराजमानो हुदा सनाता सह विर्भिरिष्टात् धनुस्य दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् पितामहकस्तस्य धतौ च मालाम् अम्लानपुष्पां जलजं स शुक्रः एवं स विभ्रार्जितयोधनार्थतैकल्पितस्वस्त्ययैनोत विप्रान् प्रदक्षिणीकृत्य कृतप्रणामप्रहलादम् आमन्त्रं नमश्चकार अतारुह्य दिव्यं ब्रुगुदत्तं महारथः सुश्रग्धरोतसंनह्यधन्वी ख्गीतृतेषु दिः हे माङ्गतलसद्बाहु स्फुरन्मकरकुण्डलः रराजरतमारूढो दिश्यस्त तुल्यैश्वर्यभलश्रीभिर्वयूतैर्दैत्ययूतपैः बिभद्भिरिवकं बे दृग्भिर्दहद्भिपरि दीनिव व्रतो विहर्षन्महती मासुरीं ध्वजनीं विभुः ययाविन्द्रपुरीं श्रद्धाम् कम्पयन्निवरोदसीं रम्यामुपवनोध्याने श्रीमद्भेर्नन्दनादिभिः कोजद्विहङ्घमितुनैर्घायन् तमधोव्रतैः प्रवालफलपुष्पोरुभारसा कामरद्रुमैः हंससारसचक्राह्वकारवकुलाकुलाः नळिन्यो यत्र क्रीडन्ति भ्रमधा सुरसेविताः देव्या व्रतां प्राकारेणाग्निवर्णेन साट्टालेन उन्नतेन च रुक्मपट्टकापटैश्च द्वारैस्फटिकगोपुरैः ज्योष्ठां विभक्तप्रपदां विश्वकर्म विनिर्मिताम् सभा चत्वरत्याढ्यां विमार्नैर्यर्भुतैर्युतां शृङ्गाटकैर्मणिमयैर्वज्रवित्रोमवेदिभिः यत्र नित्यवयोरूपा श्यामा विरजवाससः प्रजान्ते रूपवन्नार्यो ह्यर्षिर्भिरिवह्नयः सुरस्त्रीकेशविभ्रष्टनवसौ गन्धिकस्रजा यत्रामोतम् उपाधाय मार्ग आवाति मारुतः हे मजालाज निर्गच्छ धूमेन अगुरुगन्धिना पाण्डुरेण प्रतिच्छन्न मार्गे याति मुक्तावितानैर्मणि हेमके धुबेर्नानापताका वलबीभिरावृतां भी शिकण्ठीपारावतभृङ्गनादिनां वैमानिकस्त्रीकलगीतमङ्गलां मृदङ्गशङ्कनाकदुन्तु सदा ल वीणामुरजष्टिवेणुभिः नृत्यै सवात्यै वात्यैरुपदेव गीतकै मनोरमां स्वप्रभयाजित प्रभा यां न व्रजन्त्यधर्मिष्ठा कला भूदप्रह ये बेर्हि नाव्रजन्ति यत् तां देवदानीं सवरूतिनीपति बहिः समन्तात् रुरुदे पृथन्यया आचार्य दत्तं जल तं महास्वनं धत्मौ प्रयुञ्जन् भयमिन्त्रयोषिता मघवांस्तमभिप्रेत्य भले परममुद्यमं सर्वदेवगणोपेदो गुरुमेतदुवाचः भगवन्नुत्यमो भूयान बलेन पूर्ववैरिणः अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः नैनं कश्चित् कुतो विपन्निव मुकेनेधन् लिहन्निव दिशो दश दहन्निव दिशो दृग्भि संवर्ताग्निरिवोदितः ब्रूहिकारणमेतस्य दुर्दर्शत्वस्य मद्रिभोः ओजसहो बलं तेजो यत एतत्समुद्यमः गुरुर्वाच जानामिमकभञ्चत्रो उन्नतेरस्य कर्णं शिष्यायो भभृतं तेजो बृहुभिर्ब्रह्मवादिभिः भवद्विधो भवान् वापि वर्जयित्वे हरिम् नास्य शक्तपुरस्तातुं कृतान्तस्य यथा जनाः तस्मान्निलयमुत्सृजयूयं सर्वे त्रिविष्टपं यातकालं प्रतीशन्तो यतः शत्रोर्विपर्ययः एष विप्रभलो तेषामेव अपमानेन सानुभन्तो विनङ्क्ष्यति एवं सुमन्त्रितार्तास्ते गुरुणा अर्थानुदर्शिन हित्वा त्रिविष्टपं जग्म गीर्वाणा कामरूपिणः देवेश्वतनिलीनेषु बलि वैरोचनः पुरी देवधानीमधिष्ठाय वसं निन्द्ये जगत्त्रयं तं विश्वजयिनं शिष्यं मृगवः शिष्यवत्सलाः स तेन अजाययन् ततस्तदनुभावेन भुवनत्रय विश्रुता कीर्तिं दिशो वितन्वान सरे च बुडुराडिव विजदेवो च श्रियं श्रद्धां द्विजदेवोपलम्बिता आत्मानं मन्यमानो महामनाः इति श्रीमद्भागवते महापुराणे अष्टमस्कन्ते पञ्चदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजिके जय